अथर्ग्वेदे द्वितीयाष्टके पञ्चमोऽध्यायः ओ ताद्यता परम् हुवे मोच्छन्त्याः मुष शिवन्निरुक्थैः नासत्यापुहचित्सन्ताः वर्यो दिवो नपाः तासुतास्तराय अस्मे ओषु वृषनामादयेथामुत्पणी गृहत मूर्म्या मदन्ता श्रुतम् मे अच्छोक्तिकर्मेष्टाजकर्णैः श्रिये पूषन्निषकृतेव देवानासत्यावहतुम् सुजाताजुगाजूर्णेव वरुणस्य भूरेः अस्मे सा माध्वीरातिरस्तु स्तोमम् हिनोतम् मान्यस्य कारोः श्रवस्या आसु दानो सुवीर्या आयचर्षणयो वदन्ते एष वाम् सोमो अश्विनावकारिमानेभिर्मघवानासु भक्ते या तम् वृत्तिस्तरयायत्मने एतागस्त्येनासत्यापदन्ता अतारिश्मतमसस्पारमस्य प्रतिमां एहया एहयातम् प्रसिभृद्देवयानैः विद्यामेषम् वृजनम् जीरदानम् कतरापूर्वा कतरापरायोः कथा जाते कवयः को विवेद विश्वन्त्मना विकृतो यद्धरामविवर्ते ते अहनीचक्रिये एव भूरिन्द्रे अचलनम् वीचरन्तम् वद्वन्तम् गर्भमपदी दधाते नित्यम् न सूनुम् पित्रोरुपस्थेद्यावा रक्षतम् पृथिवीनो अभ्रात् अनेहो दात्र मलिकेर सर्वम् भुवेश्वलमथन्नमस्मत् तद्रोदसी जनयतञ्जरित्रेद्यावा रक्षतम् पृथिवी नो अभ्रात् अतप्यमाने अवसावन्ते अनुष्यामरोदसी देवपुत्रे उभे देवानामुभयेऽभिरन्नान्द्या वा रक्षतम् पृथिवी नो अभ्वात् सङ्गच्छमाने युवति समन्दे स्वसा राजामि पित्रोरुपस्थे अभिघ्रन्ति भुवनस्य नाभिन्द्या वा रक्षतम् पृथिवी नो अभ्वात्मने बृहति रतेन हुभे देवानामवसा जनित्री दधा तेजे अमृतम् सुप्रतीके द्यावा रक्षतम् पृथिवीनो अभ्रात् उर्वे पृथ्वे बहुरे दूरे अन्ते उपब्रुवे नमसा यज्ञे अस्मिन् दधातेजे सुभगे सुप्रतूर्तीद्यावा रक्षतम् पृथिवीनो अभ्रात् देवान्वायच्चक्रमागच्छिदागः सखायम् वा सदमित्यास्पतिम् वा इयम् धीर्भूजा अभयानमेषाम् द्यावा रक्षरम् पृथिवी नो अभ्रात् उभाषम् सादर्या मामविष्टामुभे मा मूति अवसासचेताम् भूरिचिनर्यः सुदास्तरा येषामदन्त इषयेम देवाः रतम् दिवे तदवोचम् सुमेधाः पातापवद्याद्दुरितादभीके मा पिता माता च रक्षता नवोभिः इदन्द्यावापृथिवी सत्यमस्त्वपि तर्मातर्यदिहोपभ्रुवे भूतम् देवानामवमेवोऽभिर्विद्यामेषम् रजनम् जीरदानम् आनयिणाभिर्विदशे सुषस्ति विश्वानरः सपिता देव एतो अपि यथा आयुवा नो मत्सथा नो विश्वम् जगदभिपित्वे मनीषा आ नो विश्व आस्क्रागमन्तु देवामित्रो अर्युयुवा वरुणः सजोषाः भुवन्यथा आ नो विश्वे वृथा सहकरन्तुरन्नवाः प्रेष्ठम् गोधिषिङिणीषेग्निम् षष्टिभिस्तुर्वणिः सजोषाः असद्यथा आनो वरुणः सु कीर्तिरिणश्च वर्णतरिकूर्तः सूरिः उपवहेशे नमसाजिगीषोषासानक्ता समाने अहन् विनिमानो अर्कम् विशुरूपे पयसि तस्मिन्नो धन्य उत नोहिर्बुद्ध्योमयः कश्िशुन्नपिप्युषीः भवेति सिन्धोः ये ननपा न पातमपाञ्जुना मम नोजुगो वृषणोऽयम् वहन्ते उत न इन्त्वष्टा गन्त्वच्छास्मत्सूरिभिरभिचित्रे सजोषाः आवृत्रहेन्द्रश्चर्षणिप्रास्तुभिष्टमो नरान्न इह गम्याः उत न इम् मतयोश्वयोगाशिशुन्नगावस्तरुणम् ब्रिहन्ति तलेङ्गिरोजनयो न पत्ने सुरभिष्टमन् उत नयीम् मरुतो वृद्धसे एनास्मद्रोदसीसमनसः सदन्तो पृषदश्वा सोमनयो न रथारिषादसोमित्रयुजो न देवाः प्रनुयते येषाम् महिना चिकित्रे प्रयुञ्जते प्रयुजस्ते सुवृक्ति अथ यदे येषाम् सुधिरेण प्रो अश्विना वसे कृणध्वम् प्रपोषणम् स्वतवसो हि सन्ति अध्वेषो विष्णुर्वादर्भुक्षा अच्छा सुम्नायवृतीयदेवाय इयम् सावो अस्मे दीधितिर्यजत्रा अपि प्राणी च सदनी च भूयाः निया देवेषु यततेव सोऽयुर्विद्यामेषम् वृजनम् जीरदानुम् महो धर्मानन्दविशी यस्य त्रितो व्योजसा वृत्रम् विपर्वा वर्धयत् स्वादो अपितो मधो अपितो भयन्ताः पुमहे अस्माकमपिता भव उपनः पितवाचर शिवः शिवाभिभूतिभिः मयोपुरद्विषेण्यः सखाः त्येऽपितो तदतस्तव स्वादिष्ठतेऽपितो प्रस्वात्मानो रसानाम् तु विग्रीवा इवेदते तेऽपितो महानाम् देवानाम् मनोहितम् अकारि चारुकेतुना तवाहिमवसावधीर एततोऽपितो अजगम् विवस्वपर्वतानाम् अत्राचिन्नो मथोऽपितोरम् भक्षाय गम्याः यदपामोषधीनाम् वरिंशमाहरिषामहे पाता आपेऽपीब इद्धव यद्दे सोमघवाशिरोयवशिरो भजामहे पाता आपेऽपिद्धव तरम्भव ओषधे भव पीबो ओवृक्क उदारथिः पाता आपेऽपीब इद्धव तन्ता वयम् पिजो वचो अभिर्गावोरहव्यासुशोदिमा देवेभ्यस्वासधमादमस्मभ्यन्तासधमादम् समिद्धो अद्य राजसि देवो देवैः सहस्रजित् दूतोऽहं याकविर्वः तनोऽनपादृतम् यते मद्भा यज्ञः समज्यते तत्सहस्रिणीरिषाः आदुह्वानो न ईड्यो देवाम् कावक्ष्य यज्ञ्यान् अग्नेः सहस्रसा असि प्राचीनम् बर्हिरोदसा सहस्रवीरमस्तृणन् यत्रादित्या विराजथा विराट् सम्राट् विभ्रे प्रभ्वेर्बह्वेष्टभूयसेष्टयाः दुरोघृतान्यक्षरन् सुरुक्मेः सुपेशसाधिश्रिया विराजतः उषा सावेहसीदताम् अथमाहि सुवाचसाहोता रादैव्या कवी यज्ञन्नो यक्षतामिमम् भारतीरे सरस्वति यावः सर्वा वभ्रुवे तानश्चोदयत श्रिये तुष्टारूपाणि प्रभुः पशून्विश्वान्समारजे तेषा न स्फातिमायज उपद्मन्या वनस्पते पाथो देवेभ्यः सृज अग्निर्हव्यानिसिष्वदत् पुरोगा अग्निर्देवानाङ्गायत्रेण समज्यते स्वाहाकृतीषु रोचते अग्रे न य सुपथा रे अस्मान् विश्वानिरेबुजुनानि विद्वान् युजोध्या अस्मज्जुहुराणवेनो भूयिष्ठान्ते न मुक्तिम् विधेम अग्रे त्वम्वारजानं अस्मान यो अस्मान् स्वस्तिभिररिवृगाणि विश्वाश्च पृथ्वे बहुरान उर्वीभवा तोकायतनयायशसंयोः अग्ने त्वमस्मद्युयोध्यमी इव अनग्नित्रा अभ्यमन्तकृष्टेः पुनरस्मभ्यम् सुवितायते भक्षाम् विरमृते पाहि पाहिनो अग्ने पाजु पायुभिरजस्रैरुतप्रिये सदनाशु शुक्वार मातेभयम् चरितारञष्ठनूनम् विदन्मा परम् सहस्वः मानो अग्नेव अग्ने वसृजो अघाया आविष्यवे रिपवे दुच्छुनाय मा दत्पते दशते मा दते नो मारीषते सहसा पन्परादाः विहत्वावाहङ्कृतजातयम् सद्गृणानो अग्ने तन्वेथम् विश्वाद्रिरिक्षो ऋतवानि नित्सोरभिः कृतामसि हिलेव न्ताङ्गर्ग्न उभयान् विद्वान्वेषि प्रपित्ते मनुषोजयत्र अभिपित्ते मनवेशास्यो भूर्मुर्मृजेऽन्य उषिग्भिर्नाक्रः अवोचामनिवचनान्यस्मिन् मानस्य सूनुः सहसाने अग्नौ वयम् सहस्रमृषिभिः समेम विद्यामेषम् वृजनम् जीरदानुम् अथर्वाणम् वृषभम् मन्द्रजिह्वम् बृहस्पतिम् यमर्कैः धान्यः सुरुचो यस्य देवाः शृण्वन्ति नवमानस्य वर्ताः मृत्विया उपवाचः सतन्ते सर्गो नयो दे एव यतामसर्गे बृहस्पतिः सह्यञ्जोबराहंसि बिभ्वा भवत्समृते मातरिष्वाः उपस्तुतिम् नमसमुद्यतिम् दश्लोकनीयम् सत्सभितेव प्रभाहो अस्य क्रता हन्यो अस्ति मृगो न भीमो अरक्षसस्तु विष्मान् अस्य श्लोको दिवीयते पृथिव्यामत्योनयम् सद्यक्षहृद्विरेताः मृगाणान्न हेतयोजन्ति चेमा बृहस्पतेरहि मायाम् अभिद्योन् ये त्वा देवोऽस्त्रिगम् मन्यमानाः पापा भद्रमुपजीवन्ति भद्राः न ए अनुददासि भावम् बृहस्पते च यस इत्या आरुम् सुप्रैतुः सुयमसो न पन्था दुर्नियन्तुः परिप्रेतो न मित्रः अनर्बाणोऽभिये च क्षतेनोऽपि वृता अपोर्णुवन्तो अस्थोः संयंस्तु भो वन यो रोधचक्राः स विद्वामुभयम् दष्टे अन्तर्बृहस्पतिस्तरः पश्चमहस्तु वितस्तु विश्वा बृहस्पतिर्बोधाजिदेवः स नः स्कुतो वीरबद्धा तु गोमद्यूयामेषम् वृजनम् जीरदानुम् कङ्कतो न कङ्कतोऽसतेन कम् करः द्वाविशिप्लुषे इति न्या अदृष्टाः अलिप्सत अदृष्टा अहन्त्यायत्यथो हन्ति परायते अथो अवघ्नति हन्त्यथोऽपि नष्टिविंशते शरासः कुशरासो दर्भासैर्यात मौञ्जा अदृष्टा अपैरिणाः सर्वे साकन्यलिप्सत निगावो अगोष्ठे असदन्निमृगासो अविक्षत निकेतभोजना अन्या अदृष्टा अलिप्सत एत उच्ये प्रत्यदृश्रम् प्रदोषम् तस्करा इव अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतरा दौर्वः पिता पृथिवीमाता सोभो भ्राताधितिस्वसाः अदृष्टा विश्वदृष्टास्तिष्ठते लयता सुखम् ये अंस्याये अङ्ग्याः सूचीकाये प्रसङ्गताः अदृष्टाः किञ्चने हवः उत्पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टः अदृष्टान् सर्वाञ्जम्भयम् सर्वाश्च यातु धान्याः उदवप्तदसौ सूर्यः पुरुविश्वानिजोर्मन् आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टः सूर्ये विषमासजा विदृतिम् सुरावतो गृहे शोचिन्नु न मरातिनो भयम् मरा मारे अस्य योजनम् हरिष्ठा मधुत्पा मधुरा चकार यत्तिकाशकुन्तिकासका जघासते विषम् सोचिन्नु न मरातिनो भयम् मरा मारे अस्य योजनम् हरिष्ठा मधुत्वा मधुराचकार त्रिः सप्त विष्पुलिङ्गराविषस्य पुष्पमक्षन् पाश्चिन्नु न मरन्ति नो भयम् मरा मारे अस्य योजनम् हरिष्ठा मधुत्वा मधुरा चकार पानान्नपतीनाम् विषस्य लोपुषीणाम् सर्वाः सामग्रभन्नामारे अस्य योजनम् हरिष्ठामधुत्तामधुलाचकार त्रिः सप्तमयोर्यः सप्त स्वसा आरो अग्रुवाः तास्ते विषं विजभ्रिल उदकम् कुम्भिनीरिव यत्तकः कुशुम्भकस्तकम्भिनद्यश्मनः ततो विषम्ब्रवा आवृते पराचीरनुसंवताः कुसुम्भगस्तदब्रवीद् गिरेः प्रवर्तमानकः वृश्चिकस्या रसम् विषमरसम् वृश्चिकते विषम्ष्यसि परित्वापामि सर्वताः घनेन हन्विवृश्चिकमहिम् दण्डेनागतम् आदित्यरसवेगेन विष्णुबाहुबलेन च गरुडपक्षनिपातेन भूमिम् गच्छ महायशाः गरुडस्य कातमात्रेण त्रयो लोलोकाः प्रकम्पिताः ता मही सर्वा सशैलवनकानन गगनम् नष्टचन्द्रार्कम् ज्योतिषम् न प्रकाशते देवता भयभीताश्च मारुतो न प्लवायति मारुतो न प्लवायत्योन्नमाः भो सर्पभद्रभद्रन्ते दूरम् गच्छ महायशाः जनने जयस्य यज्ञान्ते आस्तीकवचनम् स्मर आस्तीकवचनम् श्रुत्वा आयः निवर्तते तथा भिद्यते मूर्धिशिंसवृक्षफलम् यथा नर्मदायै नमः प्रात नर्मदायै नमो निशे नमोऽस्तु नर्मदे तुभ्यन्त्राहि माम् विषसर्पतः यो जरत्कारणा जातो जरत्कार्वाम् महायशाः तस्य स्मरामि भद्रन्ते दूरम् गच्छ महायशाः स्वमाशु शुक्षणीः विश्वेश्वरविरूपाक्षविश्वरूप सदाशिव शरणम् भवभूतेश करुणाकरशङ्कर हरशम्भो महादेव विश्वेशामरवल्लः शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तुते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय शर्वाय महादेवाय ते नमः उग्रायोग्राघनाशाय भीमाय भयहारिणे ईशानायनमस्तुभ्यम् पशूनाम् पतये नमः दशसप्त च नामानि मण्डलान्तेषु यः गत्वा शिवलोके महीयते नास्ति मृत्युभयम् तस्य पापलोगादिकिञ्चन यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णोरिषीकेशवासुदेव नमोऽस्तु ते कृष्णाय गोपिनाथाय चक्रिणे पुरवैरिणे रुक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णो नमिततेजसे आद्याय सर्ववेदानामिग्वेदाय नमो नमः हरिहर शिवशङ्कर वामनवासुदेवमिनामस्तावत् विश्वेश्वराय नमः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओ त्वमग्नेभ्यस्त्वमाशुक्षणिस्तमद्भ्यस्तमस्मनस्परि त्वम् वरेभ्यस्तमोषधेभ्यस्तम् दृढान्परेजाय सेशुजीः तवाग्ने होत्रम् तव पोत्रमृत्तिन्दवरेष्ट्रम् त्वमग्निरुयतः तव प्रशास्त्रम् त्वमध्वरीय श्रीब्रह्माचारिगृहपरिश्च त्वमग्रेन्द्रो वृषभस्रतामसि त्वम् विष्णुदनुगायो नमस्याः त्वम् ब्रह्मारुजिविद्ब्रह्मणस्पदे त्वम् विदर्थः सदसे पुरन्ध्या त्वमग्रे राजा वरुणो धृतौ रथस्त्वम् त्वमग्ने त्वष्टा विधते सुवीर्यन्तमग्नावो मित्रमह सजात्यम् त्वमाशुहे मारदिषेश्वम् धराम् श्रद्धो असि तमग्ने रुद्रो असुरो महो दिवस्त्वम् श्रद्धो मारुतम् ऋक्षतीशिषे त्वम् वातैररुणैर्या आसिषङ्गजस्त्वम् पूषा विधतः पासिनुत्मनाः त्वमग्नेद्रविडोदा अरङ्कृते त्वम् देवः सभिता रत्नथा असि त्वम् भगवो नृपते वस्वईशिषे त्वम् पायुर्दमेयस्तेऽभिधत् त्वामग्नेतमहाविश्वम्बिषस्पाम् राजानं सुभिदत्र मृञ्जते त्वम् विश्वानिश्वकपत्यसे त्वम् सहस्राणि शतादशप्रति त्वामग्ने पितरमिष्टिशर्नस्पाम् भ्रात्रा यशम्याः तोरुचम् म् पुत्रो भवसि यस्तेऽपि सखाः सुषेवः पास्याभृशाः त्वमग्नरुभुराके न मस्या त्वम् राजस्य क्षुपरो राजतीनुदक्षितापने त्वम् विशिक्षुरसि यज्ञहातनीः त्वमग्ने अतिर्देवदाशुषे त्वम् होत्रा भारते वर्धसे गिरा त्वमिळाः शतहि मासि रक्षसे त्वम् सरस्वते भृत उत्तमम् स्पाहे वर्णः सन्दृशिश्र्याः त्वम् रजिर्बहुलो विश्वतः स्पृथो वामग्नः इत्यास आस्यांशयश्चक्रिरे कवेचो अध्वरे देवाहविरदन्त्याहुतम् ते अग्ने विश्वे अमृता आसो अद्रुह आसा देवाः विरतन्त्याहुतम् त्वयामर्ता आसस्वदन्त आसुति त्वम् गर्भो वीरुधाञ्जग्निषे शुचीः त्वन्तान् सन् च प्रतितासि मज्मनाग्ने सुजात प्र च देवरिच्यसे वृक्षो यदत्र उभे ये स्तोत्रभ्यो गो अग्रामश्वपेश समग्ने रातिमुपसृजन्ति सूरजाः अस्मा च तांश्च प्रहिने शिवस्य आबृहद्वरेम विदधे सुवीराः यज्ञेन वर्धतजातरे एतसमग्नीयजध्वम् हविशातना आगिरा समिधानं स्वप्रयसंस्वर्णरम् युक्षम् भोतारम् मृदलेषु भूर्षदम् अभित्वारक्ते रुषसो वा शिवेग्ने भेषु धेनवाः वेदरतिर्मानुषाक्षपो भासिगुरुवारसंयताः तम् देवा बुद्धेरजसुतं प्रथमि भवेद्यम् शुक्रशोदिषमग्निम् मित्रम् न क्षिदिषु प्रशंस्यम् ्रजसि चन्द्रमिव सुरम् आदशो वृष्ण्याः पतरञ्चितयन्तमखभिक्पाथो न पारुञ्जलसे उभे अनु स होराविश्वम् गिराशिप्रोवृधारा सुर यद्रोदसे अनु स नो रेव स्वस्तये सन्ददस्वान्द्रयिमस्मासु दीदिः आनश्कृणुष्वसु विता जरोदसि अग्ने दानो अग्ने बृहतो दाः सहस्रिणो धुरो न वा जंश्रुत्या अप ोऽत्रा अभिरग्यमनुष राजा राजा आविषामतिष्ठातु राजवे एवानो अग्ने अमृतेषु पूर्वीष्पीवाजबृहद्दिवेषु बानुष दुहा आनाधेतुर्वृदेषु पारवेत्मनाशतिनम् गुरुरूपमिषणे जलमग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितये वाजनाम् वति अस्माकम् विम्नमधिपञ्चकृष्टिशोच्चा स्वा अर्णशुशुचितष्टरम् स नो बोधिसहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्तसूरजाः यमग्ने यज्ञमुपयन्ति भाजिमौनित्ये तोके दे दिवान् संस्वेदमे उभयासो जातवेदस्यामते स्तोतारो अग्ने सूरयश्च शर्मणि वस्वो राजः पुरुश्चन्द्रस्य भूयसः प्रजापतस्व प्रत्यस्य विग्नः ये स्तोतृभ्योगो अग्रामश्वपेशसमग्ने राजिमुपसृजन्ति सूरजाः अस्मा च विदथे प्रयिने सुवीराः समिद्धो अग्निर्निहितः पृथिव्याम् प्रत्यङ्विश्वानि भुवनान्यस्थात् ोता आपापकः प्रतिवत्सु वेदा देवो देवान्यज त्वग्नितरहन् न राशम् सत्प्रतिधामान्यञ्जन्तिस्रो दिवः प्रतिमह्ना स्मर्चिः घृतपुरुषा मनसा हव्यमुन्दन् मूर्धन् यज्ञस्य समनक्तु देवान् ईडितो अग्ने मनसा नोर्हन् देवान्यक्षिमानुषात् पूर्वो अद्य स आवहुरुताम् शर्धो अच्युतमिन्द्रन्नरोपरहिषदञध्वम् देवपरहिवर्धमानम् सुवीरम् स्तीर्णम् राजे सुभरम् वेद्यस्याम् भृते नाक्कम् वसवशीलतेनम् विश्वे देवा आदित्या यज्ञा सह निःश्रेन्दामुर्भियाहूयमानाद्वारो देवी सुप्रायणा नमोभिः यजस्वतीरपि प्रसन्दामधुर्यावर्णम् पुरानायशसम् सुवीरम् साध्वंसि सनता न उक्षिते उषासानक्ताः वैद्ये एव रण्ते तम् त्वम् न तम् संवयन्ते समेते यज्ञस्य पेषसु दुःखे पयस्वती दैव्या होरा देवान् यजन्तावृतु समञ्जतो नाथावृथिम् अधिसानुशुत्रिषो सरस्वती साधयन्तेधिजन् नहिलाः देवी भारते विश्वतो मूर्तिः तिस्रो देवी स्वधया परिहिरेदमच्छिद्रम् बान्तु शरणम् निषद्य पिषङ्गरूपः सुधरोपयोधा सृष्टि वीरोजा आयते देवका आमः प्रजान्पष्टाविष्यतु नाभिमस्मे अथ आदेवानामप्येतुपाधाः वनस्पतिरवसृजन्नुपस्थादग्निरहभिः सोदयाति प्रथिभिः त्रिधा समक्तम् नयतु प्रजानम् देवेभ्यो दैव्यश्च वितो बहव्यम् घृतम् विमीक्षे घृतमस्य ज्योतिर्घृते श्रियो अनुश्व आकृतम् वृषभवक्ष्यहव्यम् सुव्योत्मानम् सुभक्तिम् सुरक्तिं सुप्रयसम् सुप्रयसं भयोतिधिशा यो भोद्वेव आदेजने जातवेदाः इमम् विहन्तो अपाम् सतस्थे द्वितादुर्भृगवो विश्वा आयोः एष विश्वा आदेवाना आदेवानामग्रिरतिर्जीराश्वाः अग्निम् देवासोपानुषेषु दिक्षु प्रियन्धोः क्षेष्यन्तो न मित्रम् स देदयतु शते रूर्म्या दक्षाय्यो यो दास्वते नमः अस्य जन्वा स्वस्य एव दृष्टिः सन्दृष्टिरस्य हि आरस्य दक्षोः प्रियोभ्रदोषधेषु जिह्वामर्थो न रथ्यो दोधवीतिमारान् आयन्मे अभ्वम् भरतःपनन्तोऽषिभ्यो नामितवर्णम् स चित्रेण चिकितेरम् सुभासा च दुर्वाङ्ो मुहुरायुवाभूत् आयोमना आतादृशाणो न भाति पार्णपथार्थ्येवस्वानीत कृष्णाद्भातपूरन्वश्चिकेतदौरिवस्मयो न यो व्यस्था रक्षुर्वीम् वशर्मैति स्वयुरगोपाः अग्निः शोतिष्मा अङ्गदसान्ष्णम् कृष्णव्यथितस्वत जन्मभूमा नो ते पूर्वस्यावसोऽधे एतौ तृतीये विदधे मन्मशंसे अस्मे अग्ने संयद्वीरम् रहन्तम् क्षुवन्तम् वाजम् सिम् रजिन्दाः त्वजायथा कृत्समदासो अग्ने गुहा वन्वन्त उपराम् अभिष्युः सुवीरासो अभिमादिषा हस्मत्सूरिभ्यो गृणते तद्वयोः होता आजनिष्टचेतन पितापितृभ्य ऊतये प्रयक्षञ्जेऽन्यम् वसु आ यस्मिन् सप्तरश्मयस्तता यज्ञस्य नेतवे मरुष्वर्थव्यमष्टमम् वो ताविश्वम्बतेनवोचद्ब्रह्माणिवेरुदते परिविश्वाः निः नेमिश्चक्रमिवाभवत् साकम् हि शुचिनाजुनिः प्रशास्ताक्रपुनाजनि विद्वाङ्गस्य व्रता ध्रुवा भजा इवानुरोहते ता अस्य कुपित्तिसृभ्या वरंस्वसा रो या इद ययोः यदि मातुरूपस्वसा कृतम् भरन्त्य स्थिरा तासाः मद्भर्युरागतो यवो वृष्टीव मोदते स्वस्वा यथायसे कृणुता वृत्तिवृत्तिजम् स्तोमयी यज्ञम् चादरम् वनेमाहारदिमा वयम् यथा विद्वाङ्गरङ्गरद्विश्वेभ्यो जभ्याः अयमग्ने त्वे अभियम् यज्ञम् च क्रमा वयम् इमाम् मे ए अग्ने समिधमिमामुपसदम् वनेः इमाुधी इमा गिराः अयाते ए अग्नेऽभिधेमोर्जो न पादश्वमिष्टे येना सूक्तेन सुजाता तन्ता गीर्भिर्गिर्पणसन्द्रविण सुन्द्रविनोदः सपर्येम सपर्यवाः सबोधिसूरिर्मघवापसुपते वसुधावन् योऽध्या तस्मदद्वेषा हंसि स नो वृष्टिम् दिवस्परिसनोपाचमदन्वाणम् स नः सहस्रिणीशाः पीडानायावस्य वेजमिष्ठदूतनो गिरा यजिष्ठहोतरागहि अन्तर्ह्यग्नैयसे विद्वाञ्जन्मोभयागवे दूतो जन्ये एवमित्र्याः स आचास्मिन् सत्सि बर्हिषि श्रेष्ठञ यविश्व भारताग्ने द्विमन्तमाभर वसो मानो लयिम् मा नो अरातिरीशतदेवस्य मर्त्यस्य च पर्षितस्या उत द्विषः उतन्याः इव अतिगाहे महिद्विषाः शुचिः पापकवन् हुरः तन्नो भारताग्ने वशाभिरुक्षभिः अष्टावीभिराहुरः दुरन्नः सर्पिरासुतिः प्रत्नोः तापरे एण्यः सहस पुत्रो अद्भुतः वाचयन्निमनोरथान्योगान् अग्ने रूपस्तुहि यशस्तमस्य मेढुषाः यः सुनेथो ददाशुषे चुर्यो जलय नरिम् चारुप्रतीक आहुतः य उश्रियादमेष्वा प्रशस्यते यस्य उ रतन्वमीयते विभात्यर्चिषा अञ्जानो अदरैरभै अत्रिमनुः स्वराज्यमग्निमुक्तानि वावृदुः अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् अरिष्यन्तः स देवह्यभिष्यामपृतन्यतः इति द्वितीयाष्टके पञ्चमोऽध्यायः